अथ पञ्चाशत् सर्गः तदतः प्रागुत्तराम् गत्वा रामः सौमित्रिणा सह विश्वामित्रम् पुरस्कृत्य यज्ञवाटमुपागमत् रामस्तु मुनिशार्दूलमुवाच सः लक्ष्मणः साध्वी यज्ञसमृद्धिर्हि जनकस्य महात्मनः बहूनिह सहस्राणि नानादेशनिवासिनाम् ब्राह्मणानाम् महाभागवेदाध्ययनशालिनाम् ऋषिवाटाश्च दृश्यन्ते शकटीशतसङ्कुलाः देशो विधीयताम् ब्रह्मन् यत्र वत्स्यामहे वयम् रामस्य वचनम् श्रुत्वा विश्वामित्रो महामुनिः निवासमकरोद्देशे विविक्ते सलिलान्विते विश्वामित्रमनुप्राप्तम् शतानन्दम् पुरस्कृत्य पुरोहितमनिन्दितः ऋत्विजोऽपि महात्मानस्त्वर्घ्यमादाय सत्वरम् प्रत्युज्जगामसहसा विनयेन समन्वितः विश्वामित्राय धर्मेण ददौ धर्म पुरस्कृतम् प्रतिगृह्यतु ताम् जनकस्य महात्मनः पप्रच्छकुशलम् राज्ञो यज्ञस्य च सतांश्चाथ मुनीन् पृष्ट्वा सोपाध्यायपुरोधसः यथार्ह ऋषिभिः सर्वैः समागच्छत् प्रहृष्टवत् अथ राजा मुनिश्रेष्ठम् कृताञ्जलिरभाषत आसने भगवानास्ताम् सहैभिर्मनिपुङ्गवैः जनकस्य वच श्रुत्वा निषसादमहामुनिः पुरोधारित्विजश्चैव राजा च सह मन्त्रिभिः आसनेषु यथा पविष्टा समन्ततः दृष्ट्वा समृपतिस्तत्र विश्वामित्रमथा ब्रवीत् अद्य यज्ञसमृद्धिर्मे सफला दैवतैः कृता अद्य यज्ञफलम् प्राप्तम् भगवद्दर्शनान्मया धन्योऽस्म्यनुगृहीतोऽस्मि यस्य मे मुनिपुङ्गवा यज्ञोपसदनम् ब्रह्मन् प्राप्तोऽसि मुनिभिः द्वादशाहन्तु ब्रह्मर्षे दीक्षा माहुर्मनीषिणः ततो भागार्थिनो देवान् द्रष्टुमर्हसि कौशिक इत्युक्त्वा मुनिशार्दूलम् प्रहृष्टवदनस्तदा पुनस्तम् परिपप्रच्छप्राञ्जलिः प्रयतो नृपः इमौ कुमारो भद्रम् ते देवतुल्यपराक्रमौ गजतुल्यगतिवीरौ शार्दूलवृषभोपमौ पद्मपत्रविशालाक्षौ खड्गतूणीधनुर्धरौ अश्विनाविव रूपेण समुपस्थितयौ वनौ यदृच्छ एव गाम् प्राप्तौ देवलोकादि वामरौ कथम् प्राप्तौ किमर्थम् कस्य वा मुने वरायुधरौ वीरौ कस्य पुत्रौ महामुने भूषयन्ताविमम् देशम् चन्द्रसूर्याविवाम्बरम् परस्परस्य सदृशौ प्रमाणेऽङ्गितचेष्टितैः काकपक्षधरौ वीरौ श्रोतुमिच्छामि तत्त्वतः तस्य तद्वचनम् श्रुत्वा जनकस्य महात्मनः न्यवेदयदमेयात्मा पुत्रौ दशरथस्य तौ सिद्धाश्रमनिवासम् च राक्षसानाम् वधं तथा तत्रागमनमव्यग्रम् विशालायाश्च दर्शनम् अहल्या दर्शनम् समागमम् महाधनुषि जिज्ञासाम् कर्तुमागमनम् तथा एतत्सर्वम् महातेजा जनकाय महात्मने निवेद्य विररामाथ विश्वामित्रो महामुनिः इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे पञ्चाशत् सर्गः